सर्वान्नृपांस्तान् प्रसमीक्ष्य कर्णो धनुर्धराणां प्रवरो जगाम उद्धृत्य तूर्णं धनुरुद्यतं तत् सज्यं चकाराशु युयोजबाणान् दृष्ट्वा सूतं मे निरे पाण्डुपुत्राभित्वानीतं लक्ष्यवरं धरायाम् धनुर्धरारागकृतप्रतिज्ञामत्यग्निसोमार्कमथार्कपुत्रम् दृष्ट्वा तु तं द्रौपदीवाक्यमुच्चैर्जगादनाहं वरयामि सामर्षहासं प्रसमीक्ष्य सूर्यं तत्याजकर्णस्फुरितं धनुस्तत् एवं तेषु निवृत्तेषु क्षत्रियेषु समन्ततः चेदीनामधिपो वीरो बलवानन्तकोपमः दमघोषसुतो शिशुपालो महामतिः धनुरादायमानस्तु जानुभ्यामगमन्महीं ततो राजा महावीर्यो जरासंधो महाबलः धनुष्याश्य तस्थ गिरीवाचल